मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं तर्टि एय्ट् वाराहमाहात्म्यम् श्रीगणेशाय नमः मुद्गल उवाच हिरण्यकशिपौ नष्टे हिरण्याक्षं च दैत्यपाह राजानं कारयामासु सोऽपि चक्रे तथाखिलम् भ्रादुर्वधेन सन्तप्तो देवाञ्जित्वा महाबलः तेषाम् मूलविनाशार्थं मदिञ्चक्रे च दैत्यपह तत्र तेन विचारेण सम्प्राप्तं ज्ञानमुत्तमम् कर्मनाशे च देवानाम् मरणम् प्रभविष्यति कर्मरूपमयम् तेषाममृतम् नात्र संशयः अन्ये नष्टे कथं देवास्थास्यन्ति तनुधारकाः कर्ममूलमयीं भूमिं प्रगृह्य प्रययौ कलह पादालं दैत्यराजस्तु केलयन् सर्वे प्रजापदिं नष्टे चराचरे भूम्यां शशंसो दैत्यचेष्टितम् ब्रह्मणा नोदिदा सर्वे वैकुण्ठं जग्मुरादराद तुष्टुवुस्तम् रामनाथं शशंसुश्चेष्टितं महद तदसोऽपि दयायुक्तसौगरं रूपमास्थितः कैलासे गणपं चेष्ट्वा ययौ पादालमोजसा तत्र दंष्ट्राग्रसं युक्तां पृथ्वीं कृत्वा बहि प्रभुः निर्ययौ तं हिरण्याक्षो योद्धुकामः समाययौ तदो युद्धं महाभोरं तयोर्जातं प्रजापदे शुष्कार्द्रदंष्ट्रया दुष्टं सन्ध्याकाले जखानसः ममारसहसा दैत्यो वराहो धरणीसुधः निर्गत्य स्थापयामास पृथ्वीं पूर्ववदत्सुदः संस्थाप्य पृथ्वीं वाराहो मयूरेशंसमायययौ अक्षरब्रह्मरूपश्च सर्वेभ्यो ज्ञानदायकः स्त्रीस्वरूपेण पृथिवी पत्नीभावेन तं ययौ कर्मूलमयी प्रोक्ताक्षरा धारा सुखप्रदा तुष्ठानक्रदुर्भक्ति तत्पर दृढ़वासुद्यर्थ क्षेत्रे स्वानंदिणी प्रसन्नों भगवा गणेशो द वरदस्तौ ययौ प्रीत्यो वाजः संवृणुतं वरं तदस्ताभ्याम् प्रणम्यादौ पूजितो गणनायकः नामाष्टकेन साम्नावै वै संस्तुतो भक्तिभाविदः वरं तौ वृणुताम् क्षेत्रे स्वानन्दे देहि विघ्नप वासं भक्ति सुसिद्ध्यर्थं ब्रह्मभूतसुखप्रदे तयोर्वचनमाकर्ण्य गणेशकृपया कृपयायुतः भक्तिं ज्ञात्वा महोग्रां वै सूर्यं प्रोवाच हर्षितः गणेश उवाच शुक्लगत्यात्मकं द्वारं त्वदीयम् मुक्दिदम् परं तत्र पृथ्वी वराकौ तवाङ्गे कुरुमानद तथेधिकृतवान् सूर्यसंस्थितौ द्वारिताहुभौ उत्तराङ्गं गणेशस्याश्रित्य पूजां प्रचक्रदुः इदं वराहरूपस्य माहात्म्यं कथितं मया श्रवणात् पठनात् सर्वमुक्दिदं प्रभवे नृणाम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते वाराहमाहात्म्यं नाम अष्टत्रिंशोऽध्यायः